षष्ठोऽध्यायः वैशम्पायन उवाच गते तु विदुरे राजन्नाश्रमम् पाण्डवान् प्रति धृतराष्ट्रो महाप्राज्ञः पर्यतप्यतभारत विदुरस्य प्रभावम् च सन्धिविग्रहकारितम् विवृद्धिम् च पराम् मत्वा पाण्डवानाम् भविष्यति ससभा विदुरस्मारमोहितः समक्षम् पार्थिवेन्द्राणाम् पपाता विष्टचेतनः समुत्थाय महीतलात् समीपोपस्थितम् राजा सञ्जयम् वाक्यमब्रवीत् भ्राता मम सुहृच्चैवा साक्षाद्धर्म इवापरः तस्य स्मृत्याद्य सुभृशम् हृदयम् दीर्यतीव मे तमानयस्वधर्मज्ञम् मम भ्रातरमाशु इति ब्रुवंस नृपतिः कृपणम् पर्यदेव विदुरस्मारमोहितः भ्रातृस्नेहादिदम् राजा सञ्जयम् वाक्यमब्रवीत् गच्छ सञ्जयजानीहि भ्रातरम् विदुरम् मम इति जीवति रोषेण मया निर्धृतः न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन व्यलीकम् कृतपूर्वं वै प्राज्ञेनामितबुद्धिना सव्यलीकम् परम् प्राप्तो मत्तः परमबुद्धिमान् त्यक्ष्यामि जीवितं प्राज्ञा तं गच्छानय सञ्जय तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च सञ्जयो बाढमित्युक्त्वा प्राद्रवत् प्रति सोचिरेण समासाद्य तद्वनं यत्र पाण्डवाः रौरवाजनसंवीतं तदर्शाध युधिष्ठिरम् विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः भ्रातृभिश्चाभिसङ्गुप्तम् देवैरिव पुरन्दरम् युधिष्ठिरमुपागम्य पूजयामास संजयः भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे राज्ञापृष्टः सकुशलम् सुखासीनश्च सञ्जयः सशंसागमने हेतुमिदम् चैवाब्रवीद्वचः सञ्जय उवाच राजा स्मरति तेत् क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः तम्पस्य गत्वा क्षिप्रं संजीवय सञ्जीवय च पार्थिवम् सोऽनुमान्यनरश्रेष्ठान् पाण्डवान् कुरुनन्दनान् नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम वैशम्पायन उवाच एवमुक्तस्तु विदुरो धीमान् स्वजनवल्लभः युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् तमब्रवीन्महातेज धृतराष्ट्रोऽम् विकासुतः दिष्ट्या प्राप्तोऽसि धर्मज्ञा दिष्ट्या स्मरसि मे नघ अद्य रात्रौ प्रजागरे प्रपस्यामि विचित्रम् देहमात्मनः सोङ्कमानीय विदुरम् मूर्धन्याघ्राय चैवः क्षम्यतामिति चोवाच यदुक्तोऽसि विदुर उवाच क्षातमें मया राजन गुरुर्मे परमो भवान येषोह शीघ्रं तद्दर्शनपरायण भवि नरव्याघ्र पुषा धर्मचेतस दीनाजन्त्रकार्याचारणा पांडोस्ुता यादृशा मे तादृश्स्तव भारत दीना दीनातीव मे बुद्धिपन्नाता वैशंपायन उवाच अोनमुनीय भ्रातरो द्व महाद्युती विदुरो धृतराष्ट्रच लेभाते भाते इति मुद्दे महाभारते वनपर्णि अपर् विदुरगमने षठोध्याय